श्रीमद्भागवद् महापुराणं दशमस्कन्ध अथ त्रिसप्ततितमोऽध्यायः जरासन्ध के जेल से छुटे हुए राजाओं की विदाई और भगवान का इन्द्रप्रस्थ लौट आना शेषो कुवाच अयुते द्वे सता न्यष्टौ लीलया युधनिर्जिताः ते निर्गता गिरिन्द्रोण्यां मलिनामलवासस शच्छामा शुष्कवदना परिकर्षिताः दधिसुस्ते घनश्यामं पीतकौशेयवाशषम् शिवस्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणं चारुप्रसन्नवदनं सुरन्मकरकुण्डनं पद्महस्तं गदाशङ्खरथाङ्गैरूपलक्षितम् किरीटहारकर्कटकटिसूत्राङ्गदाचितं भ्राजद्वरं मणिग्रीवं नवीनिवीतं वनमालयां पिबन्त इव चाक्षुर्भ्यां लिहन्त इव जिह्वयां जिघ्रन्त इव नाशाभ्यां रम्भन्त इव बाहुभिः प्रमे प्रणे मुरुषं हतपाप्मानो मूर्धभिपादयो हरे कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमाः दशसंसृशीकेशं गिरिभिप्राञ्जलयो नृपाः राजान् उचुः नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय प्रपन्नान् पाहिनः कृष्णनिर्विन्नान् घोरसंश्रितेः नैनं नाथान्वशूयामो मागतं मधुसूदनम् अनुग्रहो यद्भवतो राज्ञां द्राज्य च्युतिर्विर्भुवौ राज्यैश्वर्य मदोन्नद्धो न श्रेयो विन्दते निपः त्वन्मायामोहितो नित्या मन्यते सम्पदोचलाः मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् एवं वैकारिकीं मायाम् अयुक्ता वस्तुल चक्षते वयं पुरा श्रीमदनष्टदृष्टयो जिगीषया स्या इतरेतरस्मिध प्रभो मृत्युं पुरस्त्वा विगणयीय दुर्मदा त एव कृष्णाद्यगभीररङ्घता दुर्यन्तवीर्येण कालीन तन्वा भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मरामते अथो न राज्यं मृगतृष्णिरूपितं देहेन स स्वत्पतता रुजाम्भुवाम् उपासितव्यं श्रियामहे विभो क्रियाफलं प्रेत च कर्णरोचनं तं न समादिशोपायं संसारतामिह कृष्णाय वासुदेवाय हरे परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः श्रीशुकुवाच संस्तूयमानो भगवान् राजभिर्मुक्तबन्धने तानाः करुणस्तात् शरण्यश्लक्ष्मया गिरां श्रीभगवानुवाच अद्य प्रभृतिर्वो भूपा मय्यात्मन्यकिलेश्वरो अहं सुदृढा जायते भक्तिर् ब्राढमाशंसितं तथा दृष्ट्या व्यवसितं भूपा भवन्तऋतभाषिणः श्रियैश्वर्य पश्य उन्मादकं नृणाम् अहयो नः नरकोपरे श्रीमदाद्भ्रंसितास्नाद् देवदैत्यनरेश्वरा भवन्तैतत् विज्ञाय देहाद्युत्पाद्यमन्तवत् मां यजन्तो ध्वरैर्ययुक्ता प्रजाधर्मेण रक्षत सन्तन्वन्त प्रजातन्तुन् सुखं दुःखं भवाभवौ प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यत उदासी नास्ति देहादावात्मा रामाधितव्रता नै मनः सम्यग् मामन्ते ब्रह्म याशत शिशुकुवाच इत्यादिश्च कृष्णो भगवान् भुवनेश्वरः तेषां न्ययुक्तपुरुषां श्रियोमज्जन् कर्मणि कार्यामाश सपर्यां कारयामास सह देवेन भारतलरदेवोचितैर्वस्त्रैर्भूषणैर्सृग्विलेपनैः भोजयित्वा वराह्ण्येन सुष्णातां समलङ्कृतान् भोगैश्च विविधैर्युक्तान् ताम्बूलाद्यै निपूजितैः ते पूजिता मुकुन्देन राजानो मृष्टकुण्डनाः निर्जुर्मोर्चिता क्लेशान्त्रा वृडन्ते यथा ग्रहा रथान् सदस्वानारोप्य मणिकाञ्चन भूषितान् पुणय्य शून्यतैर्वाग्यैः स्वदेशान् कृष्णेन सुमहात्मनां ययोस्तमेव ध्यायन्त कृतानि जगत्पते जगतो प्रकृतिस्थं प्रकृतिभ्यस्ते महापुरुषचेष्टितं यथान्वसा सन् भगवान् तथा चक्रूरतन्द्रिताः जरासन्दं घातयत्वा भीमसेनेन केशव पार्थाभ्यां संयुतः प्राया सह देवेन पूजितः गत्वा ते खाण्डवं प्रस्थं सङ्खानदध्मुजेतारयः हर्षयन्त स्वसुहृदों धृहृदां च सुखा वा तच्छ्रुत्वा पीतमनस इन्द्रप्रस्थनिवासिनः मे निरेमागतं शान्तं राजा चाप्तमनोरथः अद्विवन्द्याथ राजानं भीमार्जुनजनार्दना सर्वमाश्रावयाचक्रो आत्मना यदुनिष्ठितम् निषम्य धर्मराजस्तन् केशवेनानुकम्पितम् आनन्दाशुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन एते श्रीमद्भागवते महापुराणे पारंशां शयितायां उत्त्रार्धे कृष्णाद्यागमनेत्रिसप्तति तपोऽध्याय